हरि ओम् नम श्रीसीतारामचन्द्राभ्यं नमः अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे त्रयोदशाधिकशतमः सर्गः संलप्य निवृत्तेन अनुमता श्रीरामम् प्रति तस्याः सन्देशस्य इति प्रति समादिष्टो हनुमान् मारुतात्मजहे प्रविवेशे पुरीम् लङ्काम् पूज्यमानो निशाचरै प्रविश च पुरीम् लङ्काम् अनुज्ञाप्य विभीषणम् तत सेनाभ्यनुज्ञातु हनुमान् वृक्षवाटिकाम् सम्प्रविश्य सीताया विदितो हरिः दर्शे मृजयाहीनाम् सातङ्कामरोहिणीम् विवे वृक्षमूले निरानन्दाम् राक्षसी भी परिवृताम् निभृत प्रणत प्रभय सुभिगम्यभिवाद्य च दृष्ट्वा तम् देवी हनुमन्तम् महाबलम् तूष्णीमातः तदा दृष्ट्वा स्मृत्वा धृष्टा भवत्तद, तदा सौम्यम् तस्याः मुखम् दृष्ट्वा रामस्य वचनं सर्वम् आख्यातुम् पचक्रमे वैदेही देहि कुशलै राम सीव लक्ष्मणः कुशलं चाहसिद्धातो हतशत्रो रमित्रयेत् विभीषण साहाय्येन रामेण हरिभिसह रावणो देवी लक्ष्मणेन च विद्यवान् प्रयम् आख्यामि देवी ोयश्च त्वां सभाजये तव प्रभावाद्धर्मज्ञे महान् रामेण संयोगे लब्धोऽयं विजयसीते सीते स्वस्था भयगतज्वला रावणश्च हतशत्रु लङ्कां चैव वशीकृता मया ह्य लब्धनिन्द्रेण ध्रुतेन तव निर्जये प्रतिन्यैषा विनीतेन बध्वा सेतुं महोदधो सम्भ्रमश्च न कर्तव्यो वर्तन्त्या रावणालये विभीषणा विधेयं हि लङ्केश्वर्यमिदं कृतं तदाश्वसिः विश्रद्धं सगृहे परिवर्तते अयं चाभ्येतिसमृष्ट तद्दच्छ न सुमुत्सुकः एवम् उक्ता देवी सीता शशिनिभाननः प्रहर्चेणावरुद्धा सा व्याहर्तुं न शशाकच तथो ब्रवी हरिवरः सीतामप्रतिजलपतिं किं त्वं चिन्तयसे देवी किं च मां नाभिभाषसे एवम् उक्ता हनुमतः सीता धर्मपथि स्थितः अब्रवीत् परमप्रीतः वाजपे गद्गदया गिरा प्रियं वेतैदुपसृत्य भर्तुर्विजयसंश्रितम् प्रहर्षे वशमापन्ना निर्वाक्यास्मि क्षणान्तरम् न हि पश्चामि सदृशम् चिन्तयन्ति प्लवङ्गमे आख्यानकश्च भवतो दातुम् प्रत्यभिनन्दनं न हि पश्चामि तौत्सम्य पृथिव्यामपि वानर सदृशं यत् प्रियाख्याने तव दत्त्वा भवेत् सुखम् हिरण्यं वा सुवर्णं वा रत्नानि विविधानि च राज्यं वा त्रिषु लोकेषु एतन्नार्हति एवम् उक्तस्तु वैदेह्या प्रत्युवाच प्लवङ्गमः प्रगृहीताञ्जलिर्हर्षात् सीताया प्रमुखे स्थित भट्टु प्रियुक्त भट्टूर्जय कांक्षिणी स्निग्धम तव एक वचन सौम्य सार्धमे विविधाश्चा देवराजा विशिष्य से अर्थत मैया प्राप्त ेवराजा दयो गुणः हठशत्रुम् विजयिनम् रामम् पश्यामि सुस्थितम् तस्य तद्वचनम् श्रुत्वा मैथिली जनकात्मज तथा शुभतरं वाचम् उवाच परमात्मजम् अतिलक्षण सम्पन्नम् माधुर्य गुणभूषणम् बुद्ध्या त्वमेवर्हसि भाषितुम् श्लाघनीयो निरस्यत्वम् सुतपरमधार्मिक बलं शौर्यम् घृतं सत्त्वम् विक्रमो दाक्षमुत्तमं, तेज क्षमाधृतिस्थैर्यम् विनीतत्वं न संशयः एते चाने च भवो गुणा सय्येव शोभनः अथोवाच पुनसीताम् सम्भ्रान्तो विनीत वृहीताञ्जलिर्हर्षात् सीताया प्रमुखे स्थितः सीता इमा तु कलिराक्षस्यो यदि तम् अनुमन्यसे हन्तुमिच्छामि चा सर्वा या भीतम् तर्जिता पुरा क्लिश्यन्तीम् पति देवान् ताम् क्रूरा कुर, कु क्रूर तरे क्षणः इह श्रुतः मया देवी राक्षस्य विकृता ननः असकृत् परिचेर्वाक्ये वदन्त्यो विकृताय विकृताकार क्रूरा क्रूरकृ इच्छामि विविधे घाते हन्तु मेता सुदारुणः राक्षस्य उदारुणकथा वरमे तत् प्रयच्छ मे मुष्टिभिः पाट्निघातये विशालै चैव बाहुभिः जङ्घाझानुप्रहारै च दन्तानां चैव पीडने कर्तने कर्णनाशानां केशानां लुञ्चनै तथा निपात्य हन्तुमिच्छामि तदपि प्रियकारिणिः एवं प्रहारे बहुभिः सम्प्रार्य यशस्विनी घातये तीव्ररूपाभि याभिस्तर्जिता पुरा इत्युक्ता सा हनुमतः कृपण दीनवत्सल हनुमन्तम् उवाचेदं चिन्तयित्वा विमृश्य च राजसंशयवशानां कुर्वतीनां पराज्ञेय विधेयानां कुपे त्वा नरोत्तमः भाग्यवैषम्य दोषेण च मयैतत् सर्वं सकृतं ह्युपभुज्यते नैव नमः बाहु दैवी एषा परा गतिः प्राप्तव्यं तु दशा योगान् मयि तयदिति निश्चितम् वर्षयामि य दुर्बला आज्ञप्ता राक्षसेनैः राक्षस्य सर्जयन्ति हते तस्मिन् न कुर्वन्ति सर्जनम् मारुतात्मजः अयम् व्याघ्रः समीपे तु पुराणो धर्मसंहितः वृक्षेण गीतः श्लोकोऽसि तन्निबोधः प्लवङ्गमः न परे पापमादत् परेषाम् पापकर्मणाम् समयो रक्षितव्य सन्तश्चारित्रभूषणः पापानाम् वा शुभानाम् वा वधार्हाणाम् अथापि वा कार्यम् कारुण्यमार्येण न कश्चित् न पराध्यति लोकहिंसा विहाराणाम् क्रूराणाम् पापकर्मणाम् कुर्वताम् अपि पापानि नैव कार्यम् अशोभनम् एवम् उक्तः तु हनुमान् सीतया वाक्य गोविन्दः पत्युवाच ततः सीताम् रामपत्नीम् अनिन्दिताम् युक्ता रामस्य भवति धर्मपत्नी गुणान्विता प्रतिसन्दि क्षमां देवि गमिष्ये यत्र हनुमतः वैदेही जनकात्मज सब्रवी द्रष्टुमिच्छामि भक्तारम् भक्तवत् स्थलम् तस्य तद्वचनं श्रुत्वा हनुमान् मारुतात्मजे हर्षेन् मैथिलीं वाचम् वाचेदम् महामतिः पूर्णचन्द्रमुखम् रामम् द्रक्षस्य स लक्ष्मणम् स्थितमित्रम् हतामित्रम् शचिवेन्द्रम् सुरेश्वरम् तमिव मुक्त्वा भजन्तीम् सीतां साक्षात् दिव श्रियम् आजगाम महातेजा हनुमान् यत्र राघवः सपदि हरिवर ततो हनुमान् पतिवचनं जनकेश्वरात्मजाय कथितमकथमय यथाक्रमेल श्रीरसवरप्रतिमाय राघवाय विद्यार्थे श्रीमद् रामायणे वाल्मीकि अधिकाव्युद्धकाण्डे त्रयोदशाधिकशतमसर्ग प्रीतितारामचन्द्राणमस्तु